अथैकसप्ततितमः सर्गः सप्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान् ततः सुदामान् द्युतिमान् सन्तीर्यावेक्ष्यताम् नदीम् ह्रादिनीम् दूरपाराम् च प्रत्यक्स्रोतस्तरङ्गिणीम् शतद्रुमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः ऐलधाने नदीम् तीर्त्वा प्राप्य चापरपर्वतान् शिलामाकुर्वतीम् तीर्त्वा आज्ञेयम् शल्यकर्षणम् सत्यसन्धः शुचिर्भूत्वा प्रेक्षमाणः शिलावहा अभ्यगात्समहाशैलान् वनम् चैत्ररथम् प्रति सरस्वतीम् च गङ्गाम् च युग्मेन प्रतिपद्य च उत्तरान्वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् वेगिनीम् च कुलिङ्गाख्याम् पर्वतावृताम् यमुनाम् प्राप्य सन्तीर्णो बलमाश्वासयत्तदा शीतीकृत्य तु गात्राणि क्लाम् तानाश्वास्यवादिनः तत्र राजपुत्रो महारण्यमरभीक्ष्णोपसेवितम् भद्रो भद्रेण यानेन मारुतः भागीरथीम् दुष्प्रतराम् सोंसुधाने महानदीम् उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे स गङ्गाम् प्राग्वटे सबलस्ताम् सतीर्त्वाथ समगाद्धर्मवर्धनम् तोरणम् दक्षिणार्धेन शम्बूप्रस्थम् समागमत् वरूथम् च ययौ रम्यम् ग्रामम् दशरथात्मजः तत्र रम्येव नेवासम् कृत्वा सौ प्राङ्मुखो ययौ उद्यानमुज्जिहानायाः सताम् स्तुप्रियकान् प्राप्य शीघ्रा नास्थाय अनुज्ञाप्याथ भरतो वाहिनी द्वरितो ययौ वासम् कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानिकाम् नदीम् अन्या नदीश्च विविधैः पार्वतीयैस्तुरङ्गमैः तता रचलरव्याघ्रो लोहित्ये च कपीवती एकसाले स्थाणुमतीम् विनते गोमतीम् नदी कलिङ्गनगरे चापि प्राप्य सालवनम् तदा भरतः क्षिप्रमागच्छत् सुपरिश्रान्तवाहनः वनम् च समतीत्याशु शर्वर्यामरुणोदये अयोध्याम् मरुनाराज्ञा निर्मिताम् सददर्शः पुरीम् पुरुषव्याघ्रः सप्त रात्रोषितः पथि अयोध्यामग्रतो दृष्ट्वा सारथिम् चेदमब्रवीत् एषा प्रतीतामे मे पुण्योऽध्याना यशस्विनी अयोध्या दृश्यते दूरात् सारथे पाण्डुमृत्तिका यज्विभिर्गुणसम्पन्नैर्ब्राह्मणैर्वेदपारगैः भूयिष्ठमृद्धराकर्नाजर्षिवर पालिता अयोध्या श्रूयते तो मुलो महान समन्ता नर नारीण तम शृणोम्यहम उद्या क्रीडिवपरत समंताद्य प्रकाशंते म दंतीव परता अवरी सारे प्रतिभाति मायानर्दृश्य गजर्न चाजि निो वो वर मुख्या उद्याना पुरा भाति मत प्रमुदिता चनासंत्यंत गुणवं तान्येतान्यद्य पश्यामि निरानन्दानि सर्वशः स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिवद्रुमैः नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् सरक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहू चन्दना गुरुसम्पृक्तो धूमसम्मूर्च्छितो प्रवाति पवनश्रीमान किन्नुनाद्य यथा पुरा भेरीमृदङ्गवीणानाम् कोणसङ्घट्टितः पुनः किमद्य शब्दो विरतः सदा दीनगतिः पुरा अनिष्टानि च पापानि पश्यामि विविधानि च निमित्तान्यमनोज्ञानि तेन सीदति मे मनः सर्वथा कुशलम् सूतदुर्लभम् मम बन्धुषु तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे विषण्णः श्रान्तहृदयः श्रस्तः सल्लुलितेन्द्रियः भरतः प्रविवेशाशु कुपालिता द्वारेण वैजयन्तेन प्राविश्रान्तवाहनः द्वाःस्थैरुत्थाय विजयमुक्तस्तैः सहितो ययौ सत्वनेकाग्रहृदयो द्वाःस्थम् प्रत्यर्च्यतम् जनम् सूतमश्रुपतेः क्लान्तमब्रवीत् तत्र राघवः किमहम् त्वरया नीतः कारणेन विना नघा अशुभाशङ्कि हृदयम् शीलम् च पततीव मे पूर्वं पूर्वम् नृपतीनाम् विनाशने आकाराम्स्तानहम् सर्वाणि ह पश्यामि सारथे सम्मार्जनविहीनानि परुषाण्युपलक्षये असंयतकवाटानि श्रीविहीनानि सर्वशः बलिकर्मविहीनानि धूपसम्मोदनेन च अनाशितकुटुम्बानि प्रभाहीनजनानि च अलक्ष्मीकाणि पश्यामि कुटुम्बि भवनाम्यहम् अपेतमाल्यशोभानि असंवृष्टाजिराणि च देवागाराणि शून्यानि न भान्ति ह यथा पुरा देवतार्चा प्रविद्धाश्च यज्ञगोष्ठास्तथैव च माल्यापणेषु राजन्ते नाद्यपण्यानि वा तथा दृश्यन्ते वणिजोऽप्यद्यन यथा ध्यानसंविग्नहृदया नष्टव्यापारयन्त्रिताः देवायतन चैत्येषु दीनाः पक्षिमृगास्तथा मलिनम् चाश्रुपूर्णाक्षम् दीनम् ध्यानपरम् कृशम् सस्त्री पुंसम् च पुरे इत्येव भरतः सूतम् तम् दीनमानसः तान्यरिष्टान्ययोध्यायाम् प्रेक्ष्य राजगृहम् ययौ ताम् शून्यशृङ्गाटकवेश्वरथ्याम् रजोरुणद्वारकपाटयन्त्रा दृष्ट्वा बभूव पश्यन् मनसो प्रियाणि यान्यन्यदानास्य पुरे बभूवुः अवाक्षिरादीनमना न हृष्टः पितुर्महात्मा प्रविवेशवेश्म इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे एकसप्ततितमः